श्रीहरये नमः अथ सप्तदशोऽध्यायः श्रीशुक उवाच यः पुरूरभसः पुत्र आयुस्तस्याभवन्सुताः न कुशक्षत्रवृद्धश्च रजीरम्भ्य वीर्यवान् अनेनागिति राजेन्द्रशृणु शत्रुवृधोऽन्वयं शत्रौवृधः सुतस्यासन् सुहोत्रस्य आत्मजास्त्रयः काश्यकुशो घृतः समत इति घृत्समधादभूत् सुनकः सौनको यस्य ब्रह्फचः प्रवरो मुनिः काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतमः पिता धन्वन्तरिर्दीर्घतम आयुर्वेदप्रवर्तकः यज्ञभोक्वासुदेवां स स्मृतमात्रार्तिनाशनः तत्पुत्रकेतुमानस्य भीमतरस्ततः दिवो दासोद्युम तस्तर्दनयता सदृजस्वत्स ध्वजती कलताकुवल्वेतीकाधय ष्टिवर्ष सहस्राणी षष्टिवर्ष सता चलर्धरो राजतिबुभुजेयु अलर्कात सुनीतोतसुकेतनः धर्मकेतुसुतस्तस्मात् सत्यकेतुरधायत दृष्टकेतुसुतस्तस्मात् सुकुमारक्षितीश्वरः वीतिहोत्रस्य भर्गोधो भार्गभूमिरभूनृपः इतीमेकाशयो भूपा क्षत्रौ रम्भस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः तस्य क्षेत्रे ब्रह्मजज्ञे शृणु वं सम्मनेन सहा शुद्धस्ततशुचिस्तस्मात्विकगुद्धर्मसारथिः ततश्शान्तरयो जज्ञे कृतकृत्य स आत्मवान् रजेः पञ्चस धान्या सन् पुत्राणाम् देवै अप्यर्थितो दैत्यान् हद्वेद्राय दधादिवं। दिवम् इन्द्रस्तस्मै पुनर्धत्वा गृहीत्वा चरणौ रजेः आत्मानम् अर्पयामास प्रह्रादात्यरिसङ्घितः पितर्यो परते पुत्राय च मानाय नोधतुः त्रिविष्टपम् महेन्द्राय यज्ञभागान् समाधतुः गुरुणाहूय मानिग्नौ बलभित्तनयान् रजेः अवदित् ब्रह्मसितान् मार्गान् न पुरुषात् प्रतिष्ठात्रौ वृद्धात् सञ्जयस्तस्तुधो ततः कृतकृतस्यापि जज्ञे हर्यवनो नृपः सह देवस्तथो हीनो जयसेनस्तु तत्सुतः सङ्कृतिस्तस्य च जय शद्रधर्मा महारथः शत्रौ वृद्धान्वया भूपा शृणुभंसञ्चनाहुषात् इति श्रीमद्भागवते महापुराणे नवमस्कन्ते चन्द्रवंसानुवर्णने तदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनात्मगराजके जय